यथा राजकुलम् प्राप्य सर्वान् दोषान्स्तरिष्यथा दुर्वसम् चैव कौरव्या जानता राजवेश्मनी अमानितैर्मानितैर्वा अज्ञातैः परिवत्सरं ततश्चतुर्दशे वर्षे चरिष्यथ यथा सुखम् दृष्टद्वारो लभे द्रष्टुम् विश्वसेत् तदेवासनमन्विच्छेद्यत्र नाभिपतेत्परः यो न ना यानं न पर्यङ्कं न पीठं न गजं रथम् आरोहेत्सम्मतोऽस्मीति सराजवसतिं वसेत् यत्र यत्रैनमासीनं दुष्टचारिणः न तत्रोपविशेद्यो वै सराजवसतिं वसेत् न चानुशिष्याद्राजानमपृच्छन्तम् कदाचन तूष्णीम् उपासीता काले समभिपूजयेत् असूयन्ति हि राजानो जनान्नृतवादिनः तथैव चावमन्यन्ते मन्त्रिणम् वादिनं मृषा नैषाम् दारेषु कुर्वीता मैत्रीम् प्राज्ञः कदाचन